हरि ओम् श्री सीतारामचन्द्राभ्यां नमः पञ्च पञ्चाशत् सर्गे भरद्वाजेन स्वस्ति वाचनपूर्वकम् श्रीरामादीनाम् विसर्जनम् तदर्थं चित्रकूटमार्गस्य बोधनं च तेषां समेषां स्वनिर्मितेन प्रवेण यमुनाम् उत्तीर्य प्रतटे गमनम् यमुनाम् श्यामवटम् प्रति च सीताया प्रार्थना यमुना तटवर्ती पथा क्रोशमात्रम् गत्वा त्रयाणामपि वने परिभ्रमणम् यमुनाया समतले तटे ते तेषां रात्रौ निवासश्च उषित्वा तत्रे तत्र राजपुत्रोरिन्दः महर्षिम् अभिवाद्य जमृत्तम् गिरिं प्रति तेषाम् स्वस्ययनम् चैव महर्षि स प्रतिष्ठान् प्रेक्षिताैव पिता पुत्रान् निवोरसान् तत प्र वचनं स मह भरद्वाजो महतेजा रामम् सत्य पराक्रमम् गङ्गा यमनयो सन्धिम् आसाद्य मनुजभ कालिन्दिम् अनुगच्छेताम् नदीम् मुखाश्रिताम् अथासाद्य तु कालिन्द्रिम् पतिस्रोते समागतम् तस्यातीर्थे प्रचरितं प्रकामं प्रेक्ष्य राघवे तत्र यूयं प्लवम् कृत्वा सरतांशु मतिं लिं ततो न्यग्रोधमासाध्य महान्तं हरितच्छदम् वरितं बहुभि वृक्षै श्यामम् सिद्धोपसेवितम् तस्मिन् सीताञ्जलिं कृत्वा प्रयुञ्जीता शिशां क्रियाम् समासाद्य च तं वृक्षम् वसेत् वा ते क्रमे तव कोशमात्रम् ततो गत्वा नीलं प्रेक्षाननम् चल्लकी बदरी मिश्रम् रम्यं मनुषैश्चयामुनैः सपन्था चित्रकूटस्य गतस्य बहुशो रम्यो माधवयुक्तश्च दावैश्चैव विवर्जितः इति पञ्चान्मादिश्य महर्षि सन्यव्य अभिवाद्य अथ चेत्युक्त्वा रामेण विनिवर्तितः उपावृत्ते मनो तस्मिन् रामो लक्ष्मणम् अब्रवीत् कृत पुण्या स्म इति तौ पुरुष मनस्विनो मन्त्रयित्वा मनस्विनौ सीतामेव घृत कृत्वा कालिन्दीम् जग्मतुर्नदीम् अथासाध्यः तु कालिन्दीम् शीघ्र स्रोतस्विनीम् सद्यो नदी जलतितीर्चवहे सौकाष्ठघाट चक्रतु महाप्लवम् शुष्कैर्वंशैः समाकीर्णम् उशीरैश्च समावृतम् ततो वै तसशाखाश्च जम्बुशाखा च वीरिवान् चकारित्वा चित, सीताया सुखमासनम् तद श्रियम् इव चिन्त्याम् रामोदरशरथि प्रियाम् ईषत्स पार्श्वे तत्र च वैदेह्याय वसने भूषणानि च प्लवे कठिन कार्यं च रामश्चक्रे समाहितः आरोप्य सीताम् प्रथमम् सङ्घाटम् परिगृह्यतो ततः प्रत्ययतु यत्तो प्रीतो दश रथात्मजो कालिन्दीं मध्यमायात सीता स्वस्ति देवीतरमे त्वाम् पारेन्मे पतिर्व्रतम् यक्षेताम्बो सहस्रेण सुराघट शतेन च स्वस्ति प्रत्यागमे रामे पुरीम् मिक्षा कुपालिताम् कालिन्निम् अथसि ता तु याचमाना कृताञ्जलिः तीरम् एवाभि सम्प्राप्ता ततप्लवेदां सुमतिम् शीघ्रगामुर्मिमालिनीम् तीरजै भूभि वृक्षै सन्तेरु यमुनां ते तीर्णाप्लवमुत्सृज्य प्रस्थाय यमुनावनत् श्यामम् न्यग्रोधमासेरु शीतलम् हरितच्छलम् न्यग्रोधम् समुपागम्य वैदेही चाभ्यवन्दते नमस्ते तु महावृक्षे पारयेन्मे पतिर्व्रतम् कौसल्याञ्च पश्येम सुमित्रां च यशस्विनीम् इति सीताञ्जलिं कृत्वा वर्य गच्छन् मनस्विनी अवलोक्य तथा सीताम् आयाचन्तीम् अनिन्दिताम् दयितां च विधेयां च रामो लक्ष्मणम् अब्रवीत् सीतामादाय गच्छ त्वम् अग्रतो भरतनुजे पृष्ठतो नो सायुधो द्विपदाम्बर यद्यत्फलं प्रार्थयते पुष्पं वा जनकात्मज तत्तत्रियच्छ वैदेह यत्रा स्या रमते मनः एकैकं पादपं लतां वा पुष्पशालिनीम् अग्रशरूपां पश्यन्ति रामम् पप्रच्छ स रमणीयान् बहुविधान् पादपान् कुसुमोत्करं सीता वचन संरब्ध आनया मास लक्ष्मण विचित्रे वालकजलम् हंससारसनादिकम् रेमे जनकराजस्य सुप्रेक्ष्य नदानदीं क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ बहून्मेध्या चेरतु यमुनान् वने विहृत्य ते बहिण पूर्णनादिते शुभैवने वारणवानरयुते सर्वं नदी वप्रमुपेत्य सत्वरम् निवास मा जगमोदीन दर्शन इत्याशि श्रीमद् रामायणे वाल्मीकिधिकव्यकाण्डे श्री सीतारामचन्द्रर्म नमस्तु